श्रीहरये नमः अथ नवमोऽध्यायः श्रीशुक उपाचा एकदा गृहदासिषु यशोदानन्दगेहिनी कर्मान्तरनियुक्तासु निर्ममन्तः स्वयं दधीं यानि यानि स गीतानि तद्बालचरितानि च दधि निर्म काले हरन्ती तान्यगायत क्षौमं वासहृतुकटितटे विप्रतीसूद्रनद्धं पुत्रस्नेहस्नुतकुचयुगं चातकं पञ्च शुभ्रोहो रज्वाकर्षस्रमभुज चलत् कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कभर विगलन् मालति निर्ममन्त तां स्तन्यकाम आसाध्य मत्नन्तीं जननीं हरिहे गृहीत्वा धति मन्तानं न्यषेधत्प्रीतिमावहन् तमङ्कमारूढम् अपाययत्स्तनम् स्नेकस्नुतं सस्मितमिक्षतीमुहम् अतृप्तमुत्सृज्य झवेन सा ययावुत्सिच्यमाने पयसि ध्वतिश्रुते सञ्जातकोपस्फुरितारुणाधरं सन्धश्य धद्भिर्दधि जकासहय्यङ्गमन्तरम् गतः उत्तार्य गोपी सुश्रुतम् पयः पुनः प्रविश्य सन्दृश्य च दत्यमत्रकम् भग्नम् विलोक्य स्वसुतस्य कर्म जहासतं चापिन न तत्र पश्यती उलूकलाङ्ग्रेरुपरि व्यवस्थितं मकायकामं दततं सिचित्स्थितं हैयङ्गवं शौर्यविशङ्किते क्षणं निरीक्ष्य पश्यासुतमागमच्चनैः तामात्यष्टिं प्रसमीक्ष्य सत्वरस्ततो वरुह्यापससार भीतवत् गोभ्यन्वधान्वन्नयमापयोगिनां क्षमं प्रवेष्टुं तपसेरितं मनः अन्वञ्चमाना जननी बृहश्चलश्श्रोणीवराघ्रान्तगतिस्तु मध्यमा जवेन विश्रंसितकेशबन्धन शुतप्रसूनानुगति परामृष कृदा गसन्तं प्ररुधन्तमक्षीणि कषन्त मञ्झन्मक्षीणि स्वपाणिना उद्वीक्षमाणं भयविक्पलेक्षणं हस्ते त्यक्त्वा यष्टिं सुतं भीतं विज्ञार्भगवत्सला इयेष किल तं भक्तुं धाम्ना अधत्पीर्य कोविधा न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरं पूर्वा परं बहिश्चान्तर् जगतो यो जगच्छयः तत् आर्त्यलिङ्गं मदोक्षजं गोपिको लोकले धाम्नां बभन्द प्राकृतं यथा तद्धामभद्यमानस्य स्वार्भकस्य कृतागसहा त्वय्यङ्कुलो न मभूतेन सन्दतेन्यश्च गोपिका यदासीत् तदभिन्यूनं तेनां यदपि सन्धते तदभिद्व्यङ्गुलं न्यूनं यत्यथा दत्तबन्धनं एवं स्वगेहतामानि यशोधा सन्धत्यपि गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिता स्वमातुस्मिन्नघात्रायां विस्रस्तखरसपरस्रजहा दृष्ट्वा परिश्रमं कृष्ण कृपयासीत् स्वबन्धने एवं सन्तर्शिता ह्यङ्गहरिणावृद्ध्य वश्यत स्वसेनापि कृष्णेन यस्ये धंसे स्वरं वसे नेमं विरिञ्चो न भवो न श्रीरव्यङ्गसंश्रया प्रसातं लेभिरे गोपी यत्यप्रापविमुक्तिधा नायं सुकापो भगवान् देहिनां गोपिकासुतः ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह कृष्णस्तु गृहकृत्येषो व्यग्राया मातरिः प्रभुः अद्राक्षी अद्राक्षीदर्जुनौ पूर्वं गोह्यकौ धनधात्मजौ पुराणा रथशापेन विशतां प्रापितौ मधाकूभरमणिग्रीवाविति ख्यातौ श्रियान्वितौ इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्थे गोपीप्रसादो नाम नवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय